श्रीमन् महाभारते वनपर्वणि अर्जुनाभिगमन पर्वणि त्रयोविंशोऽध्यायः वैशंपायन उवाच तस्मिन् दशार्हाधिपतौ प्रयाति युधिष्ठिरो भीमसेनार्जुनौ च यमौ च कृष्णा च पुरोहितश्च रथान् महार्हान् परमाश्वयुक्तान् आस्थाय वीराः सहितावनाय प्रतस्थिरे भूतपतिप्रकाशाः हिरण्यनिष्कान्वसनानिगाश्च प्रदाय शिक्षाक्षर मन्त्रविद्भ्यः प्रेष्याः पुरोविंशतिरात्तशस्त्रा धनुंसि शस्त्राणि शरांश्च दीप्तान् मौर्वीश्च यन्त्राणि च सायकांश्च सर्वे समादाय जघन्यमेयुः ततस्तु वासांसि च राजपुत्र्या भ्रात्र्यश्च दास्यश्च विभूषणञ्च तदिन्द्रसेनत्वरितः प्रगृह्य जघन्यमेवोपयौरथेन ततः कुरु श्रेष्ठमुपेत्य पौराः प्रदक्षिणम् चक्रुरदीन सत्त्वाः तम् ब्राह्मणाश्चाभ्यवदन् प्रसन्नाः मुख्याश्च सर्वे कुरुजाङ्गलानाम् स चापि तानभ्यवदत् प्रसन्नः सहैव तैर्भ्रातृभिर्धर्मराजः तस्थौ च तत्राधिपतिर्महात्मा दृष्ट्वा जनौघम् कुरु पिते पुत्रु सुरु भाव चक्रे गुराम वृषभ महात्मा ते चा तस्भर प्रबर्हे तदा बभूवु पितईव